गवद्गीता अथ प्रथमोऽध्यायः अर्जुनविषादयोगः धृतराष्ट्र उवाच sanjay ki प्रवीत् राजा वचनमप्रवीत् पश्ययितां पाण्डुपुत्राणाम् आचार्यमहतीं च मूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धी द्रुपदश्च महारथः द्रुपदश्च महारथः दृष्टकेतुश्चेकिता नः काशिराजश्च वीर्यवाण ङ्गवः नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् एव महा ब्रवीमिते ते ब्रवी भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत् माविकर्णश्च सौमदतिस्तथैव च ः सर्वे युद्धविशारदाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्ता भी पर्याप्तं द्विदमे तेषां बलं भीमाभिरक्षितं भी बलं भीमाभिरक्षितम् भी अयनेषु च सर्व हि तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः सिंहनादं विनद्योजै शङ्खं दद्मौ प्रतापवान् शङ्खं प्रतापवान् सशब्दस्तु, सशब्दस्तु ततश्वेतैर्हयैर्युक्ते महति स््यन्दने स्थितौ माधवः पाण्डवश्च तुः दिव्यौ शङ्खौ प्रदध्मतुः पाञ्चजन्यं हृषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं दध्मौ महाशङ्खम् कर्मा वृकोदरः भीमकर्मा वृकोदरः भी अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः न कुलस्थदेवस् णिपुष्पकौ सुघोषमणिपुष्पकौ काश्यश्च परमेश्वासः शिखण्डितमहारथः धृष्टद्युम्नो विराटश सात्यकिष्टा पराजितः सात्यकिष्टा पराजितः द्रुपदो द्रौपदेयाश्च सर्वशपृथिवीपते सौभद्रश्च महाबाहुः शङ्खान्दध् पृथक् पृथक् शङ्खान्दध् पृथक् पृथक् सघोषोधार्तराष्ट्राणां हृदया निव्यदारयत् नभश्च पृथिवीं चैव प्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः धनुरुद्यम्य रथं स्थापय मे च्युता यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् कैर्मया अस्मिन् रणसमुद्र कीर्षव युद्ध प्रीयति कीर्शव त्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थपश्यैतान् न् पार्थः पितॄनथ पिता महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा पुत्रान् पौत्रान् श्वशुरान्सुहृदश्चैव तेन योरुभयोरपि तान् समीक्ष्य स कौन्ते ्रवीत् अर्जुन उवाच दृष्ट्वेमं मं स्वजन च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न हत्वा स्वजनमाहवे पितामहाः मातुलाश्वशुराः पौत्राः शालास्तं बन्धिनस्तथा शालास्तं बन्धिनस्तथा हेतो किं नु महीकृते मही निहत्यधार्तराष्ट्रा नः का प्रीति स्यात् जना यिनः हैतानाततायिनः तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथम् त्वा सुखिनस्याम माधव सुखिनस्यामम् कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् कुलक्षयकृतं दोषम् प्रपश्यद्भिर्जना मे नष्टे कुलं कृष्णम् अधर्मोता अधर्मोभिभवत् त्युत अधर्मभिभवात् कृष्ण प्रदुष्यन्ति कुल सुवार्ष्णेय जायते वर्णसंकरः जायते वर्णशङ्करः पन् पड़ ऑय filtरण-ख। सशरं चापं शोकसंविघ्नमानसः शोकसंविघ्नमानसः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म